I'll do do do the uh, the the whole thing, whatever the, uh, second part of it. I'll do it once, you guys repeat twice, and let's do the practice individually, okay? Okay. Okay. Asya त्यन्तश्चरति रोचना व्यक्षन् महिषु वःत्वा क्रुद्धः परोपमन्युना यदवर्त्या सुकल्पमग्ने तत्तव पुनस्त्वोद्दीपयामसि यत्ते मन्युपरोक्तस्य पृथिवीमनुदध्वसे आदित्या विश्वे तद्धेवा वसवश्च समाभरन् रो आन्ध्या विष्वेत द्डेवा वस्वंसदasyamalberg Keyboard अधित् variety ओड़ के ema शुदक्राना तरआते अध्याम सेधिरोच Caitlin यद्यंन्यशा स्वथ정 यद्वाः शुद्याम यद्वाः उठ्वो भुद्षत्रः औरंर ओभुद्डश सेह पद्वर्वप न्थिङ्ग् लेट् डू द सेकेण्ड् पाट् टुगेदर् वन् प्रेक्टिस् इ ओके अस्य okay. प्राणा <speaking in foreign language> tukal mamagnemi tatvav oyah itamais yatteem manapar paropasya aditya aditya devadeva sabhata samab everybody do okay with that yeah okay so who wants to try it on their own अस्य प्राणादपानत्यन्तश्चरति रोचना व्यक्षन्महिष सु वः यत्त्वा आक्रुद्ध क्रुद्धः परोवपमन्युनायदवर्त्या सुकल्पमग्नेतत्तव पुनस्त्वो दीपयामसि ते मन्युपरोक्तस्य पृथिवी मनुदध्वसे आदित्या विश्वे तद्देवासवस्य समाभरन् वेरिगुड् okay. अस्तु अस्य प्राणादपानत्यन्तश्चरति रोचना व्यख्यन्मयिष सु वः यत्त्वा आकृ परोवपमन्युना यदवर्त्या सुकल्पमग्ने तत्तव पुनःत्वोद्दीपयामसि यत्ते मन्युपरोक्तस्य पृथ्वीमनुदधसे आदित्या विश्वे तद्देवा वसवश्च समाभरन् गोहरिपानन्दश्चरतिरोचना व्यक्त्यन् महिषसु वः य परोवमपमन्युना यदवर्त्या सुकल्पमग्ने तत्तव पुनस्तदोदीपमायसि दीपयामसियसि यत्ते मनुदत्वसे आदित्या विश्वे तद्देवा त्य अस्य प्राणान्तश्चरतिरोचना यक्म यत्त्वा आकृपरो वन्युनाय दवस्या अस्य प्राणादपानत्यन्तश्चरति रोचना व्यच्छन् महिष सु यत्त्वा आक्रुद्धः परो वपमन्युना यदवर्त्या सुकल्पमग्ने तत् तव पुनस्त्वोद्दीपयामसि यत्ते मन्युपरोक्तस्य पृथिवी मनुदत्वसे आदित्या विश्वे तद्देवासवश्च समाभरन् अस्य प्राणानत्यब्दच्छरदिरोचना व्यख्यन्महिषसुभः यत्वा क्लुद्धमन्युना यद् परो परोवपमन्युना यदवर्त्या सुकल्पमग्ने ग्ने तत्तवी आदित्या विश्वे तद्देवासवस्वन्धर्गे क्रुद्दफ परोवपमन्नुना ओके एते मञ्जुपेडो तस्य या वे क्रुद्दफ परोवपमन्नुना इत्ये विसर्ग ऑफ लॉर्ड बाय पकार राइट बिकम एफ साउंड क्रुद्दफ परोवपमन्नुना एदवरत्या ग्रेट तो ओके गुड अस्य प्राणादपानत्यन्तश्चरति रोचना व्यक्षन्महिष सुवः यत्त्वा क्रुद्धः परो वपमन्युना यदवर्त्या सुकल्पमग्ने तत्तव पुनस्त्वोदीपयामसि यत्ते मन्युपयोक्तस्य पृथिवी मनुदध्वसे आदित्या विश्वे तद्देवासवश्च समाभरन् धरा स्याद्वसुधा वसुन्दरा स्वाद्वसुधा वसुन्धरा मेदिनी देवी वसुन्धरा स्याद् वसुधा ओके स्याद् वसुधा मेदिनी स्याद् वसुधा ओके मेदिनी देवी वसुन्धरा स्याद् वसुधा देवी वासवी मेदिनी देवी वसुन्धरा ए ओकेन्टे श्रीमन् महोदय शुर नो प्राब्लम् धरासुधा देवी वासवी ओकेना ओके ओके लास्ट् we need to expel lot of breath and by that time it's going so i'm just right <laughs> where, where you are giving a pause so, so again take a pause here again me devi devi vasundara syad vasudha devi vasavi okay ah okay yeah that helps that is usually it is, is easier breath out when you are going down so no no you can do at that point or wherever is between words you can take a breath no problem so do the next sentence <clears throat> brahma var chasa pitrnad brahma var <laughs> chasa pitrnad brahma var chasa pitrnad ्रह्मवर्चसः पितृणाक् श्रोत्रं चक्षुर्मणः वर्चसः पितृ श्रोत्रं चक्षुर्मणः ब्रह्म वर्षसः पितृणा श्रोत्रं चुर्मः सुख्ये तद्मन् देवी हिरण्यगर्भिणी देवी हिरण्यगर्भिणी देवी हिरण्य हिरण्यगर्भिणी देवी प्रसूवरी देवी प्रसूवरी देवी देवी प्रसूवरी देवी हिरण्यगर्भिणी देवी प्रसूवरी भि हिरण्यगर्भि सदने सत्यायने सीद सदने सत्यायने सीद सदने सत्यायने सीद मुद्रवती सावित्रीः समुद्रि सावित्री समुद्रवती सावित्री नो देवि मह्यङ्गी नो देवी मह्यङ्गी ऐ नो मह्यङ्गी ए मुद्रवती सावित्री हनो देवी मह्यङ्गी समुद्रवती सावित्री हनो देवी मह्यङ्गी समुद्रवती समुद्रवती सावित्री हनो देवी मह्यङ्गी धे फरवरि बडि Yeah. So let's practice this uh, once once, yeah. once individually. Okay, let's, I'll do it once. you guys repeat repeat twice, then we will repeat once together and लेट् दिस्टीस् इण्डिविजुली मेदिनी देवी Devi देवी वासवी ब्रह्मवर्चसः पितुर्नाग श्रोत्रं चक्षुर्म देवी हिरण्यगर्भिणी देवी प्रसूवरी सदने सत्यायने सीद समुद्रवती सावित्रीहनो देवी मह्यंगी। मेदिनी देवी वसुन्दरा स्यादवी हसवी श्रोत्रम् च श्रोत्रम्नः किरण्यदश् देवी ससूतरी सवने स्याद्रवतीवती देवी अव्यी नीदी नीदी नीदी दिवारी, दिवारी, दे, ी वसुन्धरासुधानः देवी देवी Samudravaji. Samudravaji. Everybody is okay with that? Yeah. Okay, okay? Yeah. so let's repeat together once and we'll practice individually, okay? yeah. One, two, three. इण्डिविजलि ओके वन् टु त्रिदिनी brahma varaha akasha brahma akshara mana devi nilamya devi devi prabhu mari sadhates jaya nisi da samudra pati pavitri anu devi pakyam ee who wants to do it on their own स्वाद्वसुधासवी ब्रह्मवर्त पितृणा स्तोत्रम् चक्षुर्मनः देवी हिरण्यगर्भिणी देवी प्रसूवरी सदने सत्यायने सीता समुद्रवती सावित्री हनो देवी मह्यङ्गी मेदिनी देवी वसुन्धरात्स्याद्वसुधा देवी वासवी ब्रह्मवर्चसप्पितृणाग् श्रोत्रम् चक्षुर्मनः देवी हिरण्यगर्भिणी देवी प्रसूवरी सदने सत्यायने सीदा समुद्रवती सावित्री हनो देवी मह्यङ्गी वेरि गुड् मेदिनी देवी वसुन्धरा स्यात्य वसुधा देवी वासवी ब्रह्मवर्चसप्तृणागं स्तोत्रं चक्षुर्मनः देवी हि वन्यगर्भिणी देवी प्रसूवरी सदने सुयने सीदा समुद्रवती सावित्री हनो देवी मह्यङ्गी मेदिनी देवी वसुन्धरा स्याद्वसुधा देवी वासवी ई ब्रह्मवर्चस पृथृनागश्रोत्रं चक्षुर्मनः गर्भिणी देवी प्रसूवरी सदने सत्यायने समुद्रवती सावित्री हनो देवी मह्यङ्गी ओके मेदिनी देवी वसुन्धरा स्याद्वसुधा देवी वासवी ए ब्रह्मवर्चसः पितृनागश्रोत्रम् चक्षुर्मनः देवी हिरण्यगर्भिणी देवी प्रसूवरे सदने सत्यायने सीद समुद्रवती सावित्र लास्सुन्धरा स्याद्वी वासवी ब्रह्मवर्चसपितृनागं श्रोत्रं चक्षुर्मनः देवी हिरण्यगर्भिणी देवी प्रसुवदी, सदने सत्यायने सीद समुद्रवती सावित्री हनो देवी मह्यङ्गी हरि ऐहस्चिन् हरि ऐह्य क्वस्चिन् ब्रह्मवर्चस पितृनास्तोत्रम् पितृनादस्तोत्रम् Pidrnāga Srotram, Pidrnāga Srotram, Pidrnāga Srotram. There is, is a book called Ga in my book, okay, just add a Ga there, okay, Pidrnāga Srotram, okay, yeah. In your book it is just a zero, Pidrnāga Srotram is written or Pidrnāga Srotram? Pidrnāga Srotram, no Ga. Okay, you put a Ga, uh, that's all, Pidrnāga Srotram, okay? Okay, okay. Everybody is done? मेदिनी देवी वसुन्धरा स्याद्वसुधा देवी वासवी ब्रह्मवर्चसः पितृणागस्तो श्रोत्रम् चक्षुर्मनः देवी हिरण्यगर्भिणी देवी प्रसूवरी सदने सत्यायनेसीद समुद्रवती सावित्री हनो देवी मह्यङ्गीड् अदर् पार्ट् आफ्टर्होव्य shringe shringe shringe shringe shringe shringe shringe yajne yajne vibhishini yajne yajne vibhishini महीधरणि महो व्यथिष्ठा शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषिणी महीधरणि महो व्यथिष्टाङ्गे यज्ञे यज्ञे विभीषिणी रणि महो व्यथस्ता शृङ्गे श्रृङ्गे यज्ञे यज्ञे विभीषिणी तदोके इन्द्रपत्नी व्यापिनी इन्द्रपत्नी व्यापिनी सुरसरिःरस व्यापिनी सुरसरिह इ वायुमती जलशयनी वायुमती जलशयनी वायुमती जलशयनी श्रियं दाराजा वायुमती जलशयनी श्रियं वायुमती जलशयनी श्रियं धाराजा सत्यन्धोपरिमेदिनी वायुमतं जलशयनी श्रियं धाराजा सत्यन्धोपरिमेदिनी जलयनी श्रीयं लोङ्ग् सेण्टेन् श्वोरि दत्तं परिगायि गाय मही धरणी महो व्यधिष्ठा शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषिणी इन्द्रपत्नी व्यापिनी सुरसरिदिह वायुमती जलशयनी श्रियं धाराजा सत्यन्धोपरिमेदिनी शोपरिधत्थं परिगाय ी महो व्यथिष्टाश्रुङ्गे यज्ञे श्री वायुमती जलशयनी श्रियम् दत्तम् तत्परिगाय गे गे गे गे गे गे गे नी व्यापिनी सुरकरिगृहा वायुजलशयनी श्रीयन्ता राजामेदिनी ओकेरिट् टुगेदर्न् विजि ओके रेडि वन् टु त्री भरणी यज्ञ इन्द्रपत्नी व्यारि वायुवायु जलशयनीदिनी शो परि ओके ओके तु हस्तु ट्रय महीधरणि महो व्यथिष्टा शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषिणी इन्द्रपत्नी व्यापिनी सुरसरिदिहा वायुमती जलशयनी श्रियन्धाराजा सत्यन्धो परिमेदिनी शो परिगाया। ृष्टा शृङ्गे शृङ्गे यज्ञापिनी सुरसरिधिहा वायुमती जलशयिनी श्रियन्दा राजा सत्यसन्तो परिमेदिनी Sathya Sandho Parimedini Shoparidattam Parigaya Can you do the first sentence one more time? Mahi Dharani? Mahi Dharani Maho Vedishtha Sringe Sringe Yetni Yetni Vibhishini Indra good. Okay. good. That's all. That's good. Everything also is correct. So, okay. good. Who wants to go next? महीधरणि महोविधिष्ठा शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषिणी इन्द्रभक्नीव्यापिनी सुरपरिविहा वायुमती जलशयनी श्रियं धाराजा सत्यं तु परिमेदिनीय महीधरणि महोव्यथिष्टा शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषिणी इन्द्रपत्नी व्यापिनी सुरसरिदिह वायुमती जलशयनि श्रियम् धाराजा सत्यन्धोपरिमेदिनी श्वो परिधत्तम् परिगाय महीधरणि महो व्यथिष्ठा शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषिणी इन्द्रपत्नी व्यापिनी सुरसरिदिहा वायुमती जलशयनी श्रियं धाराजा ahead. मही धरणि महो व्यधिष्ठा शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषिणी इन्द्रपत्नी व्यापिनी सुरसरिह वायुमती जलसयनी स्यम्धाराजा सच्यन्थो परी मेरिनी सो परी दत्थं परी गाया। यह, very good. <coughs> Who is next? I can go there. Okay. Okay. महीधरणि महो व्यतिष्ठा शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषिणी इन्द्रपत्नीव्यापिनी सुरसरिदिह वायुमती जलशयनी श्रियम् धाराज सत्यन्धोपरिमेदिनीोपरि धत्तम् परिदत, परिगाय vir president hai okay let's read the ducks next to that's the last two sentences in this uh, soktam okay vishnu patni mahim devi mai teen devi devi vishnu patni mahim devi madhavi madhav priya विष्णुपत्नी महीं देवी माधवी माधवप्रिया महीं देवी माधवी माधवप्रिया लक्ष्मी ईं प्रियसहीं देवीं नमाम्यच्छुतवल्लभाम् लक्ष्मीभाम् अच्युतवल्लभाम् yes next yes ekinde vim tamam achudam namaham so okay yeah. yeah i mean these are words we know that's why when it will faster okay namami okay. achudavallabha okay that's our the sentence okay next sentence is om dhanurdharaye vidmahe धनुर्धरायै विद्महे धनुर्धायै विद्महे सर्वसिद्ध्यै च धीमहि सर्वसिद्धये ॐ धनुर्धरायै विद्महे तन्नो तन्नोद्धरा प्रचोदयात् या सेण्टेन्सस् अल् सेवस् रि विष्णुपत्नीं महीं देवीं माधवीं माधवप्रियां लक्ष्मी प्रियसखीं देवीं मां यच्छुदवल्लभा ॐ धनुर्धरायै विद्महे सर्वसिद्ध्यै च धीमहि तन्नो धरा प्रचोदयात् ॐ प्रिय खी देवी वल्लभाम् ॐिखे भीमहि तन्नो प्रचोदया लक्ष्मी प्रियसखीम् देवीम् नमाम्यच्युतवल्लभाम् धनुर्धरायै विद्महे सर्वतिमही तन्नोधरा प्रचोदयात् If everybody is okay Harry, with this, this is probably quick something question. you have heard before, right? So, the Gayatri, it's called Gayatri, so... Hari, quick question? Yeah. Is the second sentence is a Lakshmim or Lakshmi? Lakshmi-eem. So, um mm, is there. Anusvala. Um is there. Okay. Mm. Yeah, have in the... Eem, devim. Okay, that dot might be missing in the book. Yeah, in the book it's missing. Okay. Yeah. yeah. Okay. There there. there. should be a dot there. -im, devim, All the is is Okay. Okay. Okay, So so who wants to do do it it, on their own? This I so I think everybody can do it, right? So... I can do it. Okay, yeah. go लक्ष्मी ऐ न् डू ऐके माधवी मा लक्ष्मीं प्रियसखीं देवीं ममां यच्युतवल्लभान् ॐराय विद्महे सर्वसिद्धि च धीमहि तन्नोदया विष्णुपत्नीमहीं देवीं माधवीं माधवप्रियां लक्ष्मीं प्रियसखीं देवीं नमामुदवल्लभां नमामिदल्लभां नमाम्यच्छुदवल्लभां नमाम्यच्छुतवल्लभाम् ॐ धनुर्धरायै विद्महे सर्वसिद्ध्यै च धीमहि विष्णुपत्नी महीं देवीं माधवीं माधवप्रियां लक्ष्मी ईं प्रियसखीं देवीं नमाम मां यच्युतवल्लभाम् धनुर्धरायै विद्महे सर्वसिद्ध्यै च धीमहि तन्नो धरा प्रचोदयात् hey, nice. okay. विष्णुपत्नीम् महीम् देवीम् माधवीम् माधवप्रियाम् लक्ष्मी ईम् प्रियसखीम् देवी न माम् यच्युतवल्लभाम् ओम् धनुर्धरायै विद्महे सर्वसिद्ध्यै च धीमहि तन्नो धरा प्रचोदयात् ओके विष्णुपत्नीम् महीम् देवीम् माधवीम् माधवप्रिया लक्ष्मी प्रियसखीम् देवीम् नमाम् यच्युतवल्लभाम् ओम् धनुर्धरायै विद्महे सर्वसिद्ध्यै च धीमहि तन्नो धरा प्रचोदयात् नेक्स्ट् विष्णुपत्नी महीम् देवीवी माधवप्रियाम् लक्ष्मी प्रियसखी यच्युत नमाम् यच्युतवल्लभाम् ओम् धनुर्धरायै विद्महे सर्वसिद्ध्यै च धीमहि विष्णुपत्नीम् महीम् देवीम् माधवीम् माधवप्रियाम् लक्ष्मीं प्रियसखीं देवीं नमाम् यच्छुदवल्लभाम् ॐ धनुर्धरायै विद्महे सर्वसिद्ध्यै च धीमहि Very nice. everybody is done? everybody is is right yeah. okay, so that the the the end of so let's stop we here for the day next will we'll, uh, practice the whole thing ूक्तम् फ़र् द े वीक् विल् प्रक्टीस् दोल् तिन्डिविज्लि आफ़्टर् दी केन्ट् लेर् नेस्ट् सूक्तं नीला सूक्तं ओकेड् रा line said not say mahim devim no, no. oh. we don't we don't okay. do, uh, say that okay mahim devim vishnupati mazuriyam all that stuff we don't say at least okay. when i learned we didn't say it, so okay so that's why okay um, so we stop uh, right there at prajodaya then that's it then om shanti, okay. shanti shanti shanti will be there if they use stop okay. There, okay, that okay to that okay लेट् डु त्री लोका समस्ता अन्स्टाप् फार् द डे ॐ लोकाः नमस्ताः सुखिनो भवन्तु लोकाः नमस्ताः सुखिनो भवन्तु लोकाः नमस्ताः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः ॐ श्रीगुरुभ्यो नमः हरि